तौ देवौ मानुषीम् दीक्षाम् वहन्तौ सुरपूजितौ तज्जातिगुणयुक्ताभिः क्रीडाभिश्चेरतुर्वनम् ततः कृष्णो महातेजास्तदा गत्वा तु गोव्रजम् गिरियज्ञम् तमेवैष प्रकृतम् गोपदारकैः बुभुजे पायसं शौरिरीश्वरः सर्वभूतकृत् तम् दृष्ट्वा गोपकाः सर्वे कृष्णमेव समर्चयन् पूज्यमानस्ततो गोपैर्दिव्यम् वपुरधारयत् धृतौ गोवर्धनो नाम सप्ताहम् पर्वतस्तदा शिशुनावासुदेवेन गवार्थमरिमर्दन क्रीडमानस्तदा कृष्णः कृतवान् कर्म दुष्करम् तदद्भुतमिवात्रासीत् सर्वलोकस्य भारत देवदेवः क्षितिम् गत्वा कृष्णम् दृष्ट्वा मुदान्वितः गोविन्द इति तम् युक्त्वा ह्यभ्यषिञ्चत् पुरन्दरः इत्युक्त्वा श्लिष्य गोविन्दम् पुरुहूतोऽभ्यया दिवम् अथारिष्ट इति दैत्यं दैत्यम् वृषभविग्रहम् जघानतरसा कृष्णः पशूनाम् हितकाम्यया